श्रीहर्ये नमः अथ सप्तमोऽध्यायः सूत उवाचा अथर्ववित् सुमन्तुश्च शिष्यम् अध्यापयत् स्वकां संहितां सोऽपि पत्याय वेददर्शाय चोक्तवान् सौक्लाय निर्ब्रह्मभलेर्मो दोषपिप्पलायनिः वेददर्शस्य शिष्यास्ते पत्यशिष्यान्नतो शृणु कुमुदः सुनको ब्रह्मन् जाचलिश्चाप्यथर्ववेत् बभृशिष्यो धाङ्गीरस संधवायन एव च अदीयेतां सवर्ण्याद्याता परे नक्षत्रकशाच कश्यांगीरस साधय आथर्वण्य शुणु पौराणिकन्मुने कश्यप्यर्णिक्रतव्रणा वैसा हीत वै पौरा इ अदीयन्तव्यासशिष्यात् संहिता मत्पि दुर्मुखात् एकैकामकमेतेषां शिष्यः सर्वासमद्यका कश्यपोहं च सावर्णे रामशिष्यो कृत्रव्रणः अधीमहीव्यासशिष्याश्च तस्त्रो मूलसंहिताः पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितं शृणु अश्वबुद्धिमाश्रित्य वेदस्तास्त्रानुसारतः सर्गो शातविसर्गश्च वृत्तिरक्षान्तराणि च वंशो वंसानुचरितं दशः विर्लक्षणैर्युक्तं पुराणं तद्विधो विदुः केचित् पञ्चविधं ब्रह्मन् महतल्पव्यवस्थया अव्याकृतगुणशोभान् महतस्त्रिव्रतोऽहमः भूतमात्रेन्द्रियार्तानां सम्भवत् सर्ग पुरुषानुगृहीतानां मेषे तां वासनामयः विसर्गोऽयं समाहारो बीजाद् चराचरं प्रत्यर्भूतानि भूतानां चराणामचराणि च कृतास्वे नृणां तत्र कामाच्चोदनयापि रक्षाच्युतावता रेहा विश्वस्यानुयुगे युगे तिर्यं हन्यन्ते यैस्त्रियि द्विषः मन्मन्त्रं मनुर्देव मनुपुत्रा सुरेश्वरः ऋषयोंस्तावतारश्च हरे षड्वितमुष्यते राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः वंसानुचरितं तेषां वृत्तं वंशधराश्च ये नैमित्तिकप्राकृतिको नित्य आत्यन्तिकोलयः संस्तेति कविभिः प्रोक्तं हेतुर्जीवोऽस्य सर्गाधे अविद्या कर्मकारकः यं चानुसयिनं प्राहुरव्याकृतमुता परे व्यतिरेकान्वयो यस्य पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु बीजातिपञ्चतान्तासु ह्यवस्तास्तु युतायुतं विरमेत चित्तं हित्वा वृत्तित्रयं स्वयं योगेन वा तथात्मानं वेदेहा यानि वर्तते एवं लक्षणलक्ष्याणि पुराणानि पुराविदः मुनयोष्टादशप्राहो शुल्लकानि महान्ति च ब्राह्मकं पद्मं वैष्णवं च वैशं लैङ्कं सगारुढं नारदीयं भागवतम् आग्नेयं स्कान्दसंज्ञेतं भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् हं मात्स्यं कौर्मं च ब्रह्माण्डाज्ञम् इदीदृश ब्रह्मन् इदं समाख्यातं सा का प्रणयनं मुनेः शिष्यशिष्य प्रशिष्याणाम् ब्रह्म तेजोविवर्धनम् इति श्रीमद्भागवते महापुराणे परमहंस संहितायां द्वादशस्कन्ते सब्धमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज के जय